तन्ूत्येटावदशकम् परब्रह्मतत्त्वम् यस्मिन् येधत् विभातम् यथयितमभवद् येन चेदम् ययेधत् योऽस्मादुद्दीर्णरूप खलु बासितं भासितम् यस्य बासा यो वाचाम् दूरदूरे पुनरपि मनसा यस्य देवा मुनीन्द्रा किमु पुनरपरे कृष्णतस्मै नमस्ते जन्मातो कर्म नाम स्फुटमिह गुणदोषादिकम् वानयस्मिन् लोकानामूतये य स्वयमनुभजते तानि मायानुसारी विप्रशक्तीररूपोऽपि च बहुदर रूपोपबाद्यद्भुतात्मा तस्मै कैवल्यदाम्ने पररस परिपूर्णाय विष्णो नमस्ते नोतिर्यञ्चम् न मर्त्यम् न स च सुरम् असुरम् न स्त्रियम् नो पुमांसम् न द्रव्यम् गुणमपि सतस मापि ते रूपमाहु चिष्टम् यत्स्यान्निषेदे लक्षणावृद्धितस्थ कृश्रेणा वेद्यमानम् परमसुखमयम् बाधितस्मै नमस्ते मायायाम् बिम्बितस्त्वम् सृजसि महदकङ्कारतन्मा प्रभेतये बोधग्रामेन्द्रियाध्यैर् अपि सकलजगत् स्वप्नसंकल्पकल्पं। भूयः संहृद्य सर्वम् कमट इव पदान् यात्मना कालशक्त्या गम्भीरे जायमाने तमसि वितिमिरो भासि तस्मै नमस्ते शब्दब्रमेति कर्मेत्यणुति भगवन् काल इत्यालपन्ति त्वामेकम् विश्वहेतुम् सकलमयतया सर्वथा कल्प्यमानम् वेदान्तैर्यत्तु गीतम् पुरुष परचितात्माभितम् तत्तु तत्त्वम् प्रेक्षामात्रेण मूलप्रकृते विकृते कृत्कृष्ण तस्मै नमस्ते सत्त्वेनासत्तया वा न च कलु सत सत्त्वेन निर्वाश्यरूपा दध्येया विद्यात्वं सैव याता श्रुतिवचनलभेर्य यत्कृपा सन्ध्यलाभे संसारण्यसद्य द्रुटन परसुतामेति तस्मै नमस्ते भूषासु स्वर्णवद्वा जगति गटचरा वादिके मृत्तिकावत् वाद, तत्त्वे सञ्चिन्त्यमाने स्फुरति दधुना अव्यत्वितीयम् बभुस्थे स्वप्नद्रष्टुप्रभोते तिभिरलयविदौ जीर्णरज्जोच्चयद्वत् विद्यालाभेतैव स्फुटमपि विकसेत् कृष्ण तस्मै नमस्ते यद्बीत्योधेति सूर्यो दहति च दहनो वादिवायुस्तदान्ये यद्बीता पद्मजात्या पुनरुचित बलीनाहरेन्तेऽनुकालम् येनैवारोपिता प्राङ् निजपदमबिते चावितारच्यवक्षात् तस्मै विश्वम् नियन्त्रे वयमपि भवते कृष्ण कुर्म प्रणामम् त्रैलोग्यम् भावयन्तम् त्रिगुणमयमिदम् त्रक्षरस्यैकवाच्यम् त्रीशानामैक्यरूपम् त्रिभिरबिनिगमे गीयमानस्वरूपम् तिस्रोऽवस्ताविदन्तम् त्रियुगजनिजुषम् त्रिक्रमाक्रन्तविश्वम् त्रैकाल्ये बेतहीनम् त्रिभिरखम् अनिचम् योगभेतैर्भजे त्वाम् सत्यम् शुद्धम् विबुद्धम् जयति तव वपुर् नित्यमुक्तम् निरीहम् निर्द्वन्त्वम् निर्विकारम् निखिलगुणगण व्यञ्जनाधारभूरम् निर्मूलम् निर्मलम् तन् निरवती महिमोल्लासि निर्लीनमन्तर् निःसङ्गाना मुनीनाम् निरुपम परमानन्दशान्तप्रकाशम् दुर्वारम् द्वादशारम् द्विशतपरिमिलत् षष्टिपर्वाभिवीतम् सम्भ्राम्यक्रूरवेघम् क्षणमनो जगदाचित्यसन्तावमानम् चक्रम् ते कालरूपम् यतयतु न तु माम् त्वत्पदैकावलम्बम् विष्णो कारुण्यसिन्धो पवनपुरपते पाहि सर्वामयौघा कृष्णाकृष्णा मुकुन्ता जनार्दना कृष्णा गोविन्दनारायणा हरे अच्युदानन्त गोविन्द माधव सच्चिदानन्तनारायणाहरे